प्रमार्जमानः शनकैर्बाहो चास्यायतौ शुभौ ज्याशरक्षेपकठिनौ स्तम्भाविवहिरण्मयौ वज्रग्रहणचिह्नेन करेण परि सान्त्वयन् मुहुर्मुहुर्वज्रधरो बाहो चा स्फोटयच्छनैः स्मयन्निव गुडाकेशम् प्रेक्षमाणः सहस्रदृक् हर्षेणोत्फुल्लनयनो न चातृप्यतवृत्रः एकासनोपविष्टौ तौ शोभयां चक्रतुः सभाम् सूर्याचन्द्रमसौ व्योमचतुर्दश्यामि वोदितौ तत्र स्म गाथा गायन्ति साम्ना परमवल्गुना गन्धर्वास्तुम्बुरुश्रेष्ठाः कुशलागीतसामसु घृताचीमेन कारम्भा पूर्वचित्तिस्वयं प्रभा उर्वशीमिश्रकेशी च दण्डगौरीवरूथिनी गोपाली सहजन्या च कुम्भयोनिःप्रजागरा तित्रसेना चित्रलेखा सहा मधुरस्वरा एताश्चान्याश्च नन्द्रतुस्तत्र तत्र सहस्रशः तिक्तप्रसादने युक्ताः सिद्धानां पद्मलोचनाः महाकटितटश्रोण्यः कम्बमानैः पयोधरैः कटाक्षहावमाधुर्यैश्चेतो बुद्धिमनोहरैः इति श्रीमहाभारते वनपर्वणि इन्द्रलोकाभिगमनपर्वणि इन्द्रसभादर्शने त्रिचत्वारिंशोऽध्यायः